ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम् रात्रौ गता सुमुत्सृज्य निश्चक्रमुररिन्दमाह जरासन्धरथं कृष्णो योजयित्वा पताकिनम् आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ते वै रत्नभुजम् कृष्णम् रत्नार्हाः पृथिवीश्वराः राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् अक्षतशस्त्रसम्पन्नो दितारिः सह राजभिः रथमास्थाय तम् दिव्यम् निर्जगामगिरिव्रजात् यः अभ्यासघाति सन्दृश्यो दुर्जयः सर्वराजभिः भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः शुशुभेरथवर्योऽसौ दुर्जयः सर्वधन्विभिः शक्रविष्णो हि सङ्ग्रामे चेरतुस्तारकामये रथेन तेन वै कृष्ण उपारुह्य यौ तदा तप्तचाण किंकिघोषनादाति यो दानवा जघाननन नवतीर्नवा तं प्राप्य सम हृष्य रे पुषर्ष भा ततः कृष्णम् महाबाहुम् भ्रातृभ्याम् सहितम् तदा रथस्थम् मागधा दृष्ट्वा समपद्यन्तविस्मिताः हयैर्दिव्यैः समायुक्तो रथो वायुसमो अधिष्ठितस्स स शुशुभे कृष्णेनातीव भारत असङ्गो देवविहितस्तस्मिन् रथवरे ध्वजः योजनाद्दृशे श्रीमानिन्द्रायुधसमप्रभः चिन्तयामास कृष्णोत्थ गरुत्मन्तम् क्षणे तस्मिन् स तेनासीत् व्यादितास्यैर्महानादैः सहभूतैर्ध्वजालयैः तस्मिन् रथवरे तस्थौ गरुत्मान्पन्नगाशनः दुर्निरीक्षो हि भूतानाम् तेजसाभ्यधिकम्बभौ आदित्य इव मध्याह्ने सहस्रकिरणावृतः न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते दिव्योध्वजवरो राजन् दृश्यते चेह मानुषैः तमस्थाय रथं दिव्यम् पर्जन्यसमनिःस्वनम् निर्ययौ पुरुषौ व्याघ्रः पाण्डवाभ्यां सहाच्युतः यं लेभे वासवाद्राजा वासुस्तस्माद्बृहद्रथः बृहद्रथात् क्रमेणैव प्राप्तो बाहद्रथं नृपा स निर्यायमः बाहुः पुण्डरीके गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ना ब्राह्मण प्रमुखा राजन् विधिदृष्टेन कर्मणा बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् पूजयामासु ऋचुश्च स्तुतिपूर्वमिदं वचः नैतच्चित्रम् महाबाहो त्वयि देवकीनन्दने भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम् जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् राज्ञाम् समभ्युद्धरणम् यदिदम् कृतमद्य